मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं सिक्स्टि त्रि शनिसमागमम् श्रीगणेशाय नमः गृत्समद उवाच शृणुपुष्टिपदे ख्यादं सर्वपापहरं परं भुक्तिमुक्तिप्रदं चैव गणेशस्य महात्मनः शकुनश महामुत्रो भू दुर्मुरा दैत्यराज से तेजस्वी महापर्वतस ततापतप उग्रम सशक्तिम ध्या महासुरा नवा सुम्रेण शुक्रशिष्य प्रतापवा सहस्रवर्षे प्रगदे शक्तिः सा वरदा भवद आयौ भक्तमुख्यं सा बोधयत्तं वरं वृणु तेनापि पूजिता देवी माहात्म्येन जसंयुधा शक्रेस्तेन प्रसन्ना सा तस्मै सर्वाभयं भयं ददौ त्रैलोक्यराजमुग्रं च सङ्ग्रामे जयमादराद आरोग्यं च स्वलोके सा प्रययौ सिंहवाहिनी तत्र तेन क्रमेणैव जितं सर्वं चराचरं विष्णुमुख्यासुरा सर्वे वने वासं प्रचक्रिरे शक्रिं शिवेन संयुक्तां पीडयित्वा महाकलः पत्नीं कर्तुं समुद्युक्तो देवीं दैत्याधिपो भवत शक्तिर्लोकं परित्यज्य शिवेन सहिताययौ अन्तर्धाय स्वमात्मानं वने वासं चकारः गदे कियदि काले तौ नारदस्त जगाद विघ्नराज से चोपाससुभा देंशो भविष्य गणेश आराधि न संदेहो दुर्मदी सहनि एवमुक्त्वा गे चैव नारदे शक्रिशङ्करौ ते पादे तप उग्रं तौ षोडशाक्षरमानदः मन्त्रं षोडशवर्णाख्यं जयपदुर्गणपस्य च एवं वर्षशदे पूर्णे गणेशो वरदो भवद आगतं गणपं दृष्ट्वा नेमथुश्चरणाम्बुजे गणाधीशं तुष्टुवत शिवशक्री कृता शक्ति ऊच दु नमस्ते गणनाथा गण पद नम भक्ति प्रियाय तुभ्यं सुखदा बुद्धि सिबुरा नाभिशेषाय देवायढुण्ढिराजाय ते नमः वरदाभयहस्ताय नमः परशुधारिणे अनामयाय सर्वाय सर्वपूज्याय ते नमः सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ज्येष्ठाय चाधिपूज्याय ज्येष्ठराजाय ते नमः मात्रे पित्रे च सर्वेषां हेरम्भाय नमो नमः अनादये च विघ्ने च विघ्नकर्त्रे नमो नमः विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते त्वदीयभक्तियोगेन योगीशान्तिमागताः किं स्तुवो योगरूपं त्वां प्रणमावश्च विघ्नप तेन तुष्टो भवस्वामिनित्युक्त्वा तं प्रणेमधुः तावुद्धाप्यगणाधीश उवाचासौ महेश्वरौ गणेश उवाच भवत्कृतमिदं स्तोत्रं मम भक्त्रिविवर्धनम् पठदे शृण्वे चैव भविष्यति सुखप्रदं भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा धा। धनधान्यादिकं सर्वं लभदे तेन निश्चितं वरं च वदतं देवौ प्रसन्नोऽहं ददामिदं भवतोर्भक्तिभावेन विभुस्तोत्रेण तोषितः शक्ति शक्तिशिवावूच दुः यदि प्रसन्नभावेन वरदोऽसि गजाननस्तदा तदा पुत्रदां याहि कृतकृत्यौ तया विभो भक्तिं देहि दृढां देवत्वदिये, पादपङ्कजे दुर्मदीं जहि विघ्नेशत्रैलोक्यं च सुखी कुरु कृत्समद उवाच तयोर्वचनमाकर्ण्योमित्युक्त्वान्तर्दधे विभुः शिवौ सन्तोषयुक्तौ च तत्र सञ्जैरतुर्भयाद एकदा पार्वतिशम्भुर्वैशाखस्नानमादराद चक्रतुर्गणनाथस्य प्रीतये हिमपर्वदे भागीरथीजले नित्यं स्नात्वा पूजयतां च वै दुर्वादिभिर्मृण्मयं तौ गणनादं सुभकृदः वैशाखपूर्णिमायां तावुषकाले दुभक्दः स्नात्वा मूर्तिं शिवौ कृत्वा ध्यानं चक्रतुरादराद ध्यात्वा हृद्यावाहयदां गणाधीशं समञ्जसा मूर्तौ साह्यचला मूर्तिः स चैतन्या बभूवः चतुर्भुजधरस्तत्र गणराजो बभौ स्वयम् उवाच पितरौ देवः वाम्न संशयः वरदानप्रभावेण वैशाखस्नानजेन च तपसा पुत्ररूपं मां रक्षदम् पितरौ सदा तदप्रणम्यतं देवः शङ्करशक्रिसंयुधः तुष्टा वाधर्ववेदोक्तोपनिषद्भिर्महायशाः तदो गणपतिप्रीत्या मोहयामासमायया शिवं सशक्रिकं तत्र पुत्रभावप्रकाशनादत् ततस्तस्य ससंस्कारान् कारयामास वै द्विजैः शिवश्च जातकर्मादीन् हर्षयुक्तेन चेतसा ततो लक्ष्मीसुधापुष्टिस्तपसा च बभूवः तां ददौ स विष्णु विष्णुपरमहर्षिदः एकदा तत्र सम्यादो ग्रहोत्तम ग्रहोत्तमशनैश्चरः दर्शनार्थं गणेशस्य शस्त्रीकस्य महामतिः प्रणनाम सशस्त्रीकं गणेशं दैत्यनायक जगादभक्तिसंयुक्तो वचनं सर्वसन्निधौ धन्यं मे जन्मविद्या च तपोविद्याधिकं महद येन ते दर्शनं प्राप्तं सस्त्रीकस्य गजानन त्वं साक्षाद्योगरूपश्च पुष्टिपोषणकारिणि विश्वम्भरामहाशाक्तिस्तस्माद्वां वै नमो नमः एतस्मिन्नन्तरे तत्र शक्तिस्वयमुपागता प्रणतं रविपुत्रं तमुवाचप्रेमनिर्भरा पश्यपश्य ग्रहश्रेष्ठ सम्यक् सर्वत्र भावतः ततस्तां सशनिर्देवी मवोचद्दुःखितो भृशम् ॐ तत्सतिदिश्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे द्विदिये खण्डे एकदन्तचरिते शनिसमागमो नाम त्रिषष्टितमोऽध्यायः ओम्